श्रीहरे नमः षष्टस्कन्दः अतः प्रथमोऽध्याय राजोवाच निवृद्धिमार्गकथित आदौ भगवता यथा क्रमयोगोपलब्धेन ब्रह्मणायत संस्कृतिः प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने योऽसावलीनप्रकृतेर्गुणसर्गपुनःपुनः अधर्मलक्षणाना नरकाश्चानुवर्णिताः मनवन्तरश्च व्याख्यातः आद्यस्वायम्भुभूयतः प्रियव्रतोतानपधोर च द्वीपवर्षसमुद्राते नद्योद्यानवनस्पतेमण्डलसंस्थानं भागलक्षणमानतः ज्योतिषां विवराणां च यथेधम् अश्रुजद्विभुः अधुनेहमहाभाग यथैव नरकान्नरः नानोग्रयातनान्नेयात् तन्मे व्याख्यातुमर्हसे प्रेषुक उवाच न चेद्दिहैवापचितं यदां हसः कृतस्य कुर्यान्मन उत्तिपाणिभिः ध्रुवं स वै प्रेत्यनरकानुपैति ये कीर्तिता मे भवत स्दिग्मयातनाः तस्मात्पुरैवासिह पापनिष्कृतो यतेतमृत्यो अविभद्यथात्मनः दोषस्य दृष्ट्वा गुरुलाघवं यथा विषक्चिकित्स्येतरुजां निधानवित् राजोवाच दृष्टस्त्रुताभ्यां यत् जानन् अप्यात्मनोहितं करोति भूयो विवस प्रायश्चित्तम् अथो कथं क्वचिन्निवर्तते भद्रात् क्वचिच्चरति तत्पुनः प्रायश्चित्तमथोपार्थं मन्ये कुञ्चरसौचवत् श्रीशुक उवाच कर्मणा कर्म निर्हारो न ह्यात्यन्तिकयिष्यते अविद्वत् अधिकारित्वात् प्रायश्चित्तं विमर्शनं नास्नतः पत्यमेवान्नं व्याधयो विभवन्ति हे एवं नियमगृत्राजन् शनैः क्षेमाय कल्पते तपसा ब्रह्मचर्येण समने त्यागेन सत्यशौचाभ्यां यमेननियमेनच। देहवाग्बुद्धिजं धीरा धर्मज्ञाश्रद्धयान्विताः क्षिपन्त्यघम् अखधबे वेणुगुल्मविव अनलः केचित् केवलया भक्त्या वासुदेवपरायणाः अघं धुन्वन्ति कार्स्न्येन निहारमिव भास्करः न अगवान् राजन् पूये ततप आदिभिः यथा कृष्णार्पितप्राण तत्पूरुषनिषेवयं छद्रीचीनो हि अयं लोके पन्ताक्षोमोकुतो भयः सुशीलासाधवो यत्र नारायणपरायणाः प्रायश्चित्तानि शीर्णानि नारायणपराङ्मुखं न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगः सकृन्मनः कृष्णपाधारविन्दयो निवेशितं तद्गुणरागियैरिह न तेयमं पाशभृत्तश्च तत्पठान् स्वप्नेऽपि पश्यन्ति हि शीर्णनिष्कृताः अत्र चोदाहरन्तिमम् इतिहासपुरातनं दूताना विष्णुयमयो संवातस्तं निबोधमे कन्यगुब्जे द्विजकश्चेत् दाशीपति नाम नष्ट सदाचारो दास्यासंसर्गदूषितः भ्यक्षकैतवै सौर्यैर्गर्हितां वृत्तिमास्थितः बिभ्रत्कुटुम्बं मशुचेर्याथयामास देहिनः एवं निवसतस्तस्य लालयानस्य तत्सुतान् कालोऽध्यगान् महान् राजन्नष्टासीत्यायुषः समाः तस्य प्रवयसः पुत्रा तु यो वमः नाम्ना पित्रोश्च दयितो भृशं सभद्रहृतयस्तस्मिन् अर्बके कलभाषिणे मुमुदे जठरो भृशं पुञ्जा न प्रबिभन् खादन् बालकस्नेहयन्त्रितः भोजयन् पाययन्मूढो न वेदागतमन्तकं स मतिं चकारतनये बाले नारायणाह्वये सपासहस्तान् स्त्रीन् दृष्ट्वा वक्रतुण्डान् ऊर्ध्वरोम् न आत्मानं नेतुम् आगतान् दूरे क्रीटनकाशक्तं पुत्रं नारायणाह्वयम् प्लावितेन स्वरेणोश्चै आजुहाव आकुलेन्द्रियः निसंयम्रियमाणस्य ब्रुवधो हरिकीर्तनं भर्तुर्नाम महाराज भाष्यधासहसापथन् विहर्षधोऽन्तर्हृदयात् दासीपतिमजामिळम् यमप्रेक्षान् विष्णुधूता वारयामासु वोजसा ऊचुर्निषेदितास्तांस्ते वैवस्वतपुरःसरः के यूयं प्रतिषेद्धारो धर्मराजस्य शासनं कस्य वा कुत आयात यूयं किं माः सर्वे पद्मपला साक्षात् पीतकौसेयवाससः किरीटिनकुण्डलिनो लसत्पुष्करमालिनः सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः धनुर्निषङ्घासि गता शङ्कचक्र क्राम्भुजश्रियः दिशो वितिमिरालोका कुर्वन्तस्वेन रोचिषा किमर्थं धर्मपालस्य किङ्करा नो निषेधत श्रीशुक उवाच वासुदेवोक्तकारिणः तान् प्रत्यूचु बृहस्येधं मेघ निर्ह्राधया गिर यूयं वै धर्मराजस्य यदि निर्देशकारिणः भ्रूतधर्मस्य नस्तत्त्वं यच्च धर्मस्य लक्षणं कथं स्विद्रियते दण्ढ किं वास्य स्थानमीत्सितं दण्ढ्या सर्वे आहोस्वित् कतिचिन्तॄणां वेतप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः वेदो नारायणः साक्षाद् स्वयम्भूरितिशुश्रुमा येन स्वधाम्नि अमी भावा रजः सत्त्वतमो मयाः विभाव्यन्ते यथा तथं सूर्योऽग्निकमरुद्गाव सोमसन्ध्या अहनीदिशः कङ्कुकालो धर्म इति ह्यते दैह्यस्य साक्षिणः एतैरधर्मो विज्ञात स्थानं दण्डस्य युज्यते सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः सम्भवन्ति हि भद्राणि विपरीतानि चानः कारिणां गुणसङ्गोस्ते दे हवान्नह्यकर्म कृत् धर्मो धर्मो वेगसमीहितः स एव तत्पलं भुङ्क्ते तथा तावत् यथेकदेव प्रवरास्त्रैविध्यम् उपलभ्यते भूतेषु गुणवैचित्यार्थथान्यत्रानुमीयते वर्तमानोऽन्ययो कालो गुणाभिज्ञापको यत एवं जन्मान् यजो एतद्धर्माधर्मनिदर्शनं मनसैव पुरे देवः पूर्वरूपं विपश्यते अनुमीमांस्तते पूर्वं मनसा भगवानजः यथाज्ञस्तमसायुक् उपास्ते व्यक्तमेव हि न भेदपूर्वमपरं नष्टजन्मस्मृतिस्तथा पञ्चभिः कुरुते स्वार्थान् पञ्चवेधात पञ्चभिः एहस्तु षोटसेनत्रेन् स्वयं सब्दश अश्नुते तदेतत् षोटसकलं लिङ्गं शक्तित्रयं महत् दत्ते नु संस्मृतिं पुंशे हर्षैशोकभयार्दिता देह्यज्ञोचितषड्वर्गो नैश्चन् कर्माणि कार्यते कोशकारयिवात्मानं कर्मणाच्छाद्य मोह्यते न हि कश्चित् क्षणमपि जातो तिष्ठत्यकर्म कृतम् कार्यते ह्यवसत्कर्म गुणैः स्वाभाविकैर्बलाद् लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत यथा योनि यथा एष प्रकृतिसङ्घेन पुरुषस्य विपर्ययः आसीत् स एव न चिरात् धृतव्रतो मृधुर्धान्त सत्यवान् मन्त्रभिच्छुषिः गुर्वज्ञतितितितितितितितितितितितिवृद्धा न शुश्रूषुर्निरहङ्कृतः सर्वभूतसुहृत्साधोर्मितवाकनसूयकः ये गता सौवनं याथ पितृसन्देशकृद्विजः आधाय तत आवृत्त फलपुष्पसमित्कुशान् शूद्रं सगभुजिष्य पीत्वा मधा गूर्णितनेत्रया मत्तया विश्लतन्निव्या व्यपेतं निरपत्रपं क्रीडन्तम् अनुघायन्तं हसन्तं मनयान्तिके दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भितां जगामकृच्चयवसं सहसैव विमोहितः स्तम्भयन्नात्मनात्मानं यावत् सत्त्वं यथाश्रुतं न स सागसमाधातुं मनोमदन वेपितं तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः तामेव मनसाध्यायन स्वधर्माद्विररामः तामेव तोषयामास पित्रयेणार्थेन यावता ग्राम्यैर्मनोरमयिकामयि प्रसीदेत यता तथा विप्रां स्वभार्यामप्रौढां कुले महति लम्बितां विससर्जा चिरात्पाप स्वैरण्यापाङ्गविद्धीहे यतस्ततस्य वुपनिन्ये न्यायतो न्यायतो धनं भभारास्याकुटुम्भिन्या कुटुम्भं मम दधीरयं यतसौ शास्त्रम् उल्लङ्घ्य वैरचार्चार्यगर्हितः अवर्ततचिरं कालम् अघायुरसुश्चिर्मलात् ततयेनं एनं दण्डपाणे सहासं कृत इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे अजामिळाभाज्ञाने प्रथमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराज की जै